तृतीयाष्टके सप्तमप्रश्नः प्रारम्भः सर्वानवादेशामान् प्रवेशेति येनान् बाधाय व्रतमवैदि स्नयदृष्ट्वा प्रयात् कामप्रीयायेन कामानानप्रयाय त्वन्तानि कामायति कामानेवास्मिन् ददाति कामप्रीता एनम् कामा अनुप्रयान्ति तेजस्वी वीर्या वा भवति सन्दनिर्वा एषा यज्ञस्य योनन्वासाय प्रथं वैदि स यल्पा इतिरेवास्तु सम्प्राञ्चमुद्धृत्या मनसोपदिष्येत मनो वै प्रजापतिः यज्ञः मनसेव यज्ञनोति भूत्याहतो प्रजापतिः भूतिमेवोपैतिष इन्द्रियेण वीर्येण दीयते यस्याहितात्म्यज्ञरपक्षा इति यावत्क्षम्यया प्रध्येत् यजावदपक्षायेत् सर्वम् सम्भरेत् इयन्त एवम् ज्योतिषा संविशस्व संवेशनस्तनुवेचारुरेति परमे जनित्रैति ब्रह्मति सैवित्तिः यदि परस्तरावकक्षाय एत अनुप्रियायावश्ये स एवदप्रायश्चित्तिः ओषधैर्वा एतस्य कृशोन्वयप्रविशति यस्य हविषेवत्सा अपाकृतात् वायुवेत् सैवास्मै प्रदापयति वयो वा ओषधयः वयः पयः वय सैवास्मैपयो वृन्देहविषयवत्सानुपाकुर्यात् सैव प्रायश्चित्ते अन्यददानु वा एष देवान् भागेति दे ये यजमानस्य सायम् गृहमागच्छन्ति तस्य सायम् दुग्धो हविः एवास्मै समीची दधा श्रीवदप्राणिन् वा एष देवान् अयो वायः वयसैवास्मै व्यो वृन्दे भगवत्तरस्मै अभिषे वत्सा नपाकुर्यात् सैवतः प्रायश्चित्तिः वा एतस्य यज्ञस्य मेयरे तस्य वृत्यय सम्पत्नलालम्बका भवति रामवृत्ते येणैव यज्ञेन यजरे रामिष्टोपस्वयेहमस्मि सा त्वम् योरहम् द्वित्वम् सा माहम् कर्तरम् आवेहि सम्भवा वा सहरे वृन्धे ैवल्मीकः यज्ञः प्रजापतिः प्रजापदावेव यज्ञम् प्रतिष्ठापयति भोवृत्याः प्रजापतिः ैव्यान् दुःखा पुनरोहोदव्यम्प्रायश्चित्तिः यदनायत् अनायेन प्रतिष्ठापयति तत्कृत्वा अन्यान् दुःखा पुनरहोदव्यम्प्रायश्चित्तिः ीमुदज्जाम् मित्रेणैवेन कल्पयति तत्कृत्वा अन्यान् पूर्वस्यामाहुत्यागोहतायामुत्तराहुतिस्कन्दे श्वाभ्युष्पशिमानोऽध्येतयाभिजुयात्माद्यमानोऽध्येत यत्र वेत्र वनस्पते देवानाङ्गुष्या नामानि अत्र हव्यानि गामये दिवानस्पत्येत्या समादाय ीमेवणा ब्रह्मणे यजमाना यतागत्य स्यात् यत्प्रक्षे जये जयमाना यताग्र्या अग्ने जयोद्यस्य स्तेजमानः इताकृत्स्न्याः गदविद्युयाः पत्रावास्य शंभादिकस्य न नाभिजिहोयाद सारन्त कृरियाः सर्वस्य पुत्रे न आवरत्याद आत्मो महायक्स्तमं माहिदमानसवद नमस्ते स्वाइदये नमः त्रयायते नमः यत्र ऋषिः देहि अममाहिं वीरं अममाहिं वीरं सीदियस्खन्दे अमरः हस्ततुरंगौ जगौ यादवेदाः एष इन्द्रियेण वीर्येण रत्नस्यमानो न जायते यत्रान्यम् पश्येत् तदाहृत्य होतव्यम् हो मोहतम् भवति यद्यन्यन्न विन्देत् अयायागम् होतव्यम् एषा यदजा अग्नावेवास्याज्ञहोत्र विन्देत् ब्राह्मणस्य दक्षिणे हस्ते होदव्यम् एषवाज्ञर्वैश्वाजरः यत्रा ब्राह्मणः अग्नावेवास्याज्ञहोत्र मोहतम् भवति त्यापरञ्जात् तस्मिन्नैवाग्नावाञ्जोयात्थयेत् तस्माद्वान् वैदर्भस्तम्भः अग्नावेतम् भवति गर्भाविस्तुनाध्यासीत तद्गर्भासीत यामेवाप्नावाहुञ्जुहुयात् तामध्यासीत तस्मादर्भानाध्यासितव्या इतिसुहो द्रव्यम् सर्व देवताः देवताः स्वे अग्निहोत्रमोहनम् भवति हा वस्त्वमपरिदक्षीतपरिदक्षीत यामेवाप्स्वाहुञ्जुहुयात् ताम् परिदक्षीत रखने रखने ये ष्टाकपालन् जीवास्य मेध्याञ्च त्वग्निमेव सेवेरम बर्दमालम भैदी तर भग्दस्रवंदम गदमका अगने रिंद्रस्वष्टा मरत्वधी दिप्याम अवजश्चो देदर माविट प्राप्नो दिदर दिन्वराजी एदोवा एदत वाजिन माहिदाटने है एदत निहोत्रम रज्यत्स्रवेदर एदो स्रवाज त्याः अस्यामेवै न प्रतिष्ठापयति नाभिप्राप्नोराजेरित्याः रक्षताश्चयाः भि रश्मिपवित्राभिः श्रद्धामारभे देवाय विन्दताभृतः देवी शुद्धास्थात्राणि सिन्दता वादुङ्याय देवानाम् पर्णवर्गपतिसन्दता अयो गृहेषु भयोध्यासु हयोरुप्सेषु भयङ्गायत्रेष्व यत्रीवर्णवल्क्येन ते स्वमङ्गरोमम् अग्निम् गृह्णामि हृदञो यो हृतो आदित्यञ्ज्योतिषाञ्योतिरुमम् स्वयर्मः देवताः परिगृह्णामि स्वादिति पञ्चदिशीये प्रविष्टाः तान् देवान् परिगृह्णामि पूर्वः अग्निरहव्य पौर्णवासगो हविरधमे शामयिमावास्यैवशयाश्वनाः ताः पोर्वः परिगुह्णामि स्वाहायम निशयाः यः पशवा विश्वरोपारवन्ताम् अग्निम् ग्रहवति मगृसम्वदानाः तान्वोर्वः परिगृह्णामि स्वाहायम निशयाः अयम् विधनामग्नि श्रीयं मन्त्रम् अहिबुद्ध्यो नियच्छतु इदमहमग्नित्येष्ठेभ्यः मधुभ्यो यज्ञम् बब्रवीमि इदमहमिन्द्रज्येष्ठेभ्यः रुद्रेभ्यो यज्ञम् प्रब्रवीमि रोषदया, इदमहं वर्णज्येष्ठेभ्य आदित्येभ्यो यज्ञम् ब्रवीमिन्द्रतञ्जलिष्यामिकेन्द्रन्मे राज्यताम्पदे वृथानाम् व्रतपदे वृतञ्जलिष्यामि तक्षकेन्द्रन्मे राज्यताम् माम्णावष्काग्राम् हम् कृष्णाम् कृत्वा देवेभ्यस्त्रीयम् आच्छेत्त्वाषम् ीवानशरदः शतम् अपर्मिताः सन्न बहुलाभवन्तोनम्भ्यस्ता भम्यहम् तस्मिन् सौम्याः पितामहाश्चानुगैः सह त्रिवराशे तः प्रादेशिसंविदः यज्ञे पवित्रम् बोधताम् ैष्णवी वायुर्वासापुनातुश्चनमपि गच्छताम् यज्ञेताम् गोतारौ पवित्रेहप्यशोधने त्वया वेदम् विदः पृथिवीम् त्वया यज्ञो जायते विश्वदानि अक्षत्र यज्ञमन्वेषविद्वान् ींशन्दोनाम् पवित्रेण यज्ञस्यम् इन्द्राय सुन्दरी उपवेशादिज्ञाय त्वाय हवित्रन्दः शिवस्य क्मापवादिनः अमृन्मैन्द्रयपात्रम् यज्ञस्यायुषु प्रयच्छताम् तिरः पवित्रमलीराः देवेन सवितो सृजामिषेण बहु लाभन्ति कृतम् च जीवो जीवन्ति स्याम् देवानाम् मनुष्याणाम् प्रयोहितम् स्वाम्योपक्षतुमात्राय गोपाय कृष्णा करो इदम् करिष्ये भेषदा अश्विनाक्रावम् युवम् यामि सदनम् करोमि कल्पयामि तस्मिन् श्रीधामृते प्रतिष्ठा वीणानस्य गोपाः यथात्मापुषः स्वमैष्टक्रम् दत्तम् स्वम् मूर्तक स्वग्रश्रान्तम् स्वकमुहृतम् तस्य मेग्निरपद्रष्टा ीमाता प्रजापदिर्बन्धो नवदानानि प्रत्यवदास्यामि नमस्ते वर्जन्म विलोमाकाशमात्मनः प्रत्यः अध्याय मात्रात् आव्यादात्कृत्य सर्वात्मानः सर्वगणाः मेमाक्षायि सर्वतो चतुर्भ्यो मृदेभ्यः चतुर्भोगस्याध्यक्षेभ्यः वयम् हरिताम् भागी भागम् मा भागो भक्ताम् भजामः औषधीर्जन्व तिपादि चतुष्पादवास्रम् इन्द्राणी भूयादम् अधितिरुधपुत्रा परखदेत्रः प्रसफला सम्पतने वत्यासु कृतेन गच्छता इग्नस्य कोदर्या भूदां संजानानो विजह तामरादी चिवित्योदिरज रमणभेतां शुद्धय धनुवो यज्ञ यक्नियाः आप्रेणा विद्यमानो हृदयना नष्टयोऽप्रतिशमीडवाना देवानां देवियेभिः विमानो मदभूद इमं नारं देवाकल्पेन्नोच्य भगगौषदक्रतु एवत्प्रान्देवप्रेणाने एवत्कदमगौषदभू जामि विद्वान अहम् देवानागुस्मृतामस्मि लोकेभवादिशक्तिमासं ृणे पर परिमा देवेन <tem> रिष्यामि य इदं तस्मै योगो देवाश्चर्यम् मेधावीक्ष्मणस्वी अन्तर्तोमानुषेषु श्रीखण्डाय तदप्रदीकार्भवना श्रमेते मनूर्जमानं महते सोपगाय किच्छन्द क्षेयमानाय कामानं भवेत् भत्वा मे मानम् बभूष । ततो देवे वर्तते देवयार्गमसि इत्यैकं मिजेन्द्र संजा और सदिनापे सकुलिष्ठः गणाः नमोऽस्तु वाचः यो ब्रह्मना कर्मणा द्वेष्टि देवाः यस्य हृदयेनास्तुतायस्येर नृत्यं नृत्यं हृष्टत्मै पूर्णामद प्रतिमा दृष्ट्वा अनुन् देवे भेज्यस्तु गुणसन्दाय भवेत् परकै लोकेजमानं मिदेहि आननायस्य उष्ठे वरमेव व्योममक्षस्य नायो सुवेषः कृप्रदीका वदिना निमस्ते तास् तेर्यमाना महदेवो भगाय आमेद्रेर्यमाना एकोमानः अदमेसिकमा देहि स्वनादमेसुधा देहि कण्ठस्यदेहि अभयस्य देहि यजमानो त्र्यम्यरुन्दसदा ब्रह्मतेजो वैभवस्वार छत्रवज वैभवस्वार निजमुष्टेमे वैभवस्वार आयर्नादमेवनुस्वार निर्मयम् honi-dii shwabhatti-swadhi, s entertainin, sab Kaitlyn, johnon maridharidadin, lempari safe omnuracadhatta, dan purse haranatanu yaajana sata-inteilasirutoa ka saan-minsва sarjahadziyamin aropadkharjuhdeva-janan, tra sexy expatama jaajay purpurana harindivaak sraja crist 170 Saturday tada samma surprising NOK-a intryan, sabho com dádhu Prasaduta तदान् मधु ज्ञानयति दृशमानः मह्य यज्ञं सुगामि भदयनम् अम्माकरो बयासं अधर एवच्छवत्नाः योमावज वंसा धर्मरायः हतारादियं तथा पितासुरक्ने नगरस्य चित्तमदनद्रवायः कामतलो बयासं अधर एवच्छवत्नाः क्षमोजिनाकरः तवादीनामुसुनः येरनामनाः प्रिय सततसेदा स्योनोमे सेनो सुशोभितप्रसिद्ध्याम् र्गे लोके अहङ्करो मार्देन शर्मणा देव्येन यज्ञादर्शिताम् गौतम्भविश्वः प्रजापतिरस्य सदर्शिता ीप्रविष्टम् इरन्दुक्रम् येनोपरिष्टादधिना अयम् वेदप्रधेमवन्दः उपाधयेन गवन गफरेषो अयम् जनयमानाय लोकम् अक्षत्रं जक्खं बोरिगमहालो अयम् यज्ञसंवरद्विषमानो प्रजासाम् नाय दुसा देवताभिः एरा लोकान् सौख्यं ददयेमा इन्द्रस्य रक्षकमबुदत्मस्य कोनष्टमियह कामयातै हस्मि यज्ञे यमानाय वहम् अपदवन्द्राग्नेय गुणान् नुदेदाम अहम् प्रजां मेरवरेमिदेया अक्षयवाज्य ष्यन्दम्पिता उपमान् अग्रराज्ञेन्द्राद् आयुषे वर्तते हिवाद्वै पुण्याय मनोदा पृथिवीमाता उपमां माता पृथिवीश्वेदाम् अग्निराज्ञेन्द्राद् आयुषे वर्तते हिवाद्वै पुण्याय ैव प्रक्षालितः सर्वागुस्तानग्नेतगो हवि यद्मः आद्यो युजु राज्याश्चाः सम्यग् पृथिव्याद्युत्थितः ेन वैसन्व यज्ञस्य आवस्था प्रवाहदादि का लोखले मुसलय इच्छोते आजिसले जदुजदि इच्छवारे अब कृषोफस्य सिर्यामि विश्वदेवाह विरदंततां इद्येया विकृष संति वपी अन्नोदा सर्व स्वष्टा सुदरा जामि उज्जय नद्यमित्र महा अश्वत्थनारन मेनिसा देवना नृजाले इमरोज नधरांगकुदे उज्जय नज्जनाभिला पिता पुत्रय प्रोनथा तिद्धायत् तसेधिसे अस्यमदेह रूपिया मम यौवनशिवादशपदः यस्य न श्यपदश्यपात्मै निमृत्य सर्वम् वाताम् यौवनस्वत्नो यौर्णः कृत्वा ैव प्रक्षालितः माधस्यो प्रवदृष्टपरावध्रह्म गच्छामिपुत्रे दीक्षासितपसो योनि अपोब्रह्मणयोनिः ब्रह्मायोनिः ी वा जरामधी मे इन्द्रीम् इन्द्रम् इन्द्रजाक्रं प्रविद्ये तान्दे रथमे इन्द्रजाक्रं अनुष्टुपं प्रविद्ये तान्दे रथमे इन्द्रजाक्रं परवन्दिम प्रविद्ये तान्दे रथमे खां दीक्षा मृघमृदस्य वत्नीं दायत्रेण सन्तः साब्रह्मणा जाय असगनु सत्ये धायी सत्यमुधे धायी अपञ्चमे सत्सञ्ज्ञा भवदान योधतर भव भगवंसर्गम स्वर्गं लोकं नागस्य वृष्टं गद्ध्यस्य वृष्टभागमं अथिरी दीक्षा ीक्षया दीक्षिता दीक्षया दीक्षिता तया त्वया दीक्षयामि तया वायुदीक्षया दीक्षिताया वायुदीक्षया दीक्षिता तया त्वा दीक्षया दीक्षयामि यो तया ऋतो तया ऋतो तया त्वा दीक्षया तया चन्द्रमा यया चन्द्रमा दीक्षया दीक्षितः यया द्वा दीक्षयामि आवो दीक्षा दया वरुणो दीक्षया दीक्षितः यया वरुण दीक्षया दीक्षितः दया दीक्षयामि औषध दीक्षा दया दीक्षया दीक्षितः यया महारदीक्षया दीक्षितः यया द्वा दीक्षयामि दीक्षा यया प्राणा दीक्षया या प्राणो दीक्षादीक्षिता अयात्वादिक्षयादीक्षयामि श्रीयत्वादिक्षमानमनोदीक्षतां अन्द्रक्षंत्वादिक्षमानमनोदीक्षतां योत्वादिक्षमानमनोदीक्षतां विशस्तवादिक्षमानमनोदीक्षतां आपस्वादिक्षमानमनोदीक्षतां औषधहेस्तवादिक्षमानमनोदीक्षतां पाकवादिक्षमानमनोदीक्षतां तेजस्वादिक्षमानमनोदीक्षतां सामान्यत्वादिक्षमानमनोदीक्षतां श्च <imitation> पितृवेदेषो न मे अजैवः शिवो मां शिवमामिषः सत्यं महात्मं सद्धमेक्षते तव वे प्रतिष्ठा स्वदर्पदोगा माधशोदीक्षयन्त खत्यवत्ने अहं नरस्मि मदत्रमेदत् उवाधिगानुस्तव योनस्मि मम एकसनवह ज्ञानयज्ञे पत्रपुत्रैः लाभोत्त्यादरेधा आज पानसुक्तदिगप्रसाद ेदु एस्तान् वेदुप्रदाय विष्णुस्तान् वेदु चत्वारि माया भवाय विष्णुस्तान् वेदु पञ्चविषुभ्यो विष्णुस्तान् वेदु षट् राजस्पोषाय विष्णुस्तान् वेदु Ein, máyoshum, asyaaste asyaaste े तस्यास्ते पृथिपदः शासुरु ब्रह्मण्ये तस्यास्तेन्दम्पादः साशिरब्रह्मण्ये तस्यास्तेजोपादः सा ब्रह्मण्ये तस्यास्तेजास्ते गञ्जवपादः ृथिव्याः सवे चतुश्चिखण्डायीकाफुगुणस्य मध्ये तस्यागोपन्नावधियोः तदा ैः एतत् ्रतस्य दृक्दम् अहृतस्य फलस्य च व्रतस्य च अहृदस्य फलस्य च इन्द्रामस्य वेदम् विपदंशेयाम् आयमानं तमाविदद मर्त्यजाय मा माप्ला मा समममब्र आदः सगोदृष्टमभयमदं अनागसत्वावयं इन्द्रप्रेष्टाउबा पाहिस्तेस्त्रमजभो इतेस्तेस्त्रमजभो बृहष्टसंमजभो प्राञ्छयादस्य प्रभा पुलसिवावास्यनादितः रुदानाङ्ककुभप्रियदनपादारा अग्नुनेन्द्रकस्य पिता प्रोषेनामीवागुष्टादयेन ेणीताम् प्राणश्चत्वा चक्षुश्चत्वा श्रोत्रम् श्रेणीताम् रक्षश्चत्वाबं च श्रेणीताम् ीणीराम् oh, यजात् यदशतः इत्यनेन वैसातः तस्य दोहम श्रीमहे तस्य समावरेमहे तस्य पक्षमरेमहे आर्ग्य जानानां समुप्यतो विद्वालयानं समिक्रहा कस्मान् न जानात् प्रोन्नोस्ति एत एव शुभनाना दुश्माvnd आगद पुद्या स्मृदानः त्रिनृत्ये गृष्टस्य रशोर्दि केत ब्रह्माय अर्त्यः इन्द्रो नाम श्रुतागने प्रत्यय महयदथे सङ्गशिषकोहरेय ुष्पन्दम् वर्चस्वन्दम् मनुष्येषु इन्द्रस्य सम्राट्वरुणस्य राजा भक्ष्यम् चक्रग्रहेदम् भक्षयामि वाग्युषाणा तस्य मनो देवम् तोष्पदे नायिने विद्रविणे उद्याने यत्परायणे आवर्तने विवर्तने योगो वायि चेमित्याप्रति तान्यस्मिमाचरामिदयामः जीवाजीवेस्मिन्नस्मिन् द्वितीये लोके अन्नास्यामेवयानाः यसा संविमानः पुनादिदेवानां भुवनान् विश्वाः स्ववर्ज स्वस्वाहान्तरिक्षे बृहदिशे स्वस्वाहात्वायः द्रप्सौ ीरैरनुराध्यामगोभिः अन्वस्वैरनुसर्वैर्पुष्टैः अनुप्रजयानो यज्ञमुदयन्तु प्रतिक्षत्रे प्रतिनिष्ठामि राष्ट्रे प्रतिश्वेषु प्रतिनिष्ठामि घोषु प्रतिप्रजायाम् प्रतिनिष्ठामि भवे विश्वमन्याभिवावृधेशितम् दिवे च विश्वकर्मणे दिव्ये चाकर्णमः अस्कान्योः पृथिवीम् अस्कानुशुभाविवागाः स्कन्नेमा विश्वाभवना स्कन्ना यज्ञप्रजनयुदु अस्कानजनिप्राजनि आस्कन्नाद्यायुषा स्कन्नात्प्रजनिशीमि ते देवा येषामिदम्बा विधेयम् बभूव येषाम् इन्द्रज्येष्ठेभ्यो वरुणराजभ्यः देवेभ्य स्वाहात्याः अधिक्यागमुद साछन्दाझीमयस्वरद् अवश्रिदः उदत्या देव्याभिषजाः सूर्यः शंवादो वारपाः अवश्रुः तदि प्रदन्न विद्वान् जीवान्त्यस्मैषणे विश्वान् विदुषेभराय जग्मवे पश्चाद्मने इन्दरिन्दुरागाद् इन्दोरिन्द्रोगाद् तस्य द इन्द्रविन्दुगीरस्य मधुमदः भक्षयामि ब्रह्म प्रतिष्ठा मनसो ब्रह्मवाचः आश्राविदम् आश्रा स्वाहाताहुदरे यामिभ्यदामि मयिष्यान् ृत्यन्दताम् स्वाहा यतैन्द्रभयामहे ततो नूतये स्थिराभयङ्करः पुरुषसंहितो यज्ञः यज्ञः पुरुषसंहिता क्षाना यज्ञस्यैवादेव आदित्यास्तस्माहम् कृतस्य नमामता देवाजीवनकाम्यायत वाचानुसमोदिमाग्निर्मादस्मादेन सह कालवृत्त्यप्रमुञ्चतु दुरितायानि च कृमा स्वतीकृतङ्गमस्माञ्जातवेदोग्भ्या मरुभ्यामश्चीवद्भ्याम् कृतञ्चमादेन सह यद्धस्ताभ्याम्पिषाणि अक्षाणाम् वग्नो युघ्मानः दूरेदत्ताञ्चकाराजनेभ्यः अग्निर्मादस्मादेन सही माता गर्भे सति येन चकारेत्पिता अग्निर्मादस्मादेन सह यदा विपेशमातरम् पितरम् पुत्रंसतो पितरो मया यदन्तरिक्षम् पृथिवी मदत्याम् यन्मातरम् वाजिः पुराणम् अमारोहार्मादस्मादेन सह यदा कोनक्कन्दुरितञ्जराम यद्वादिवानोत न्यपुराणम् हिरञ्जगन्नास्तदृनीतनः मम दत्तायामिच्छुदुस्वामराजिन् अनागसो यत्ते वा बाहुच्युतो सोमा यत्ते त्वजुर्यम्परमेव यमुपभोतास्तमस्मःरूपे विचक्षास्वश्रुगस्तु मानोणानः आनो मानो रूपम् उपक्षरन्दिजुह्वो विजेन क्रियाण्यङ्गान्द्रीः तस्मैते सैत्राजन् सम्राणाम् सग श्रोत्रेण गच्छस्व सोमराजन् यत्तास्ति तघुसमुदत्ते अस्तु जानीतान्नः सङ्गमनेतात्परमेव जानी यानी इष्टाभूर्तेरस्मै हरिष्ठोराजन्नैः नमस्तेऽस्तु चक्षुषे न भूयते नारमारोहसहयमानेन ना सूर्यम् ेवस्य पितावन्द्योनः इदानीमह्न भवाच्योभिः मानवेभ्यः श्रेष्ठन्मात्रद्रविण्यथापनामित्रामृणाभिहारम् अन्वादी ध्याथा मेहनः सखाय आदित्यानाम् प्रतिदिर्हेतिषापो वृक्तु आप्याय सुन्देक्षेमसावाच यद्वा प्राणैः शिक्षु सायच्छोत्रेण यत्रेतदामिनाप्यात्मना अभ्यो लोकादधिरतेन्द्रियम् शुक्रादीक्षायै तपसो विमोचनीः आपो विमोक्ते मयितेषा शूलाञ्जन्मनविषादिदीक्षे यच्छन्दो विब्रहस्पतो अभ्यो लोकादधिरे तैरेन्द्रियम् शुक्रादीक्षायैतपसो विमोचनीः आपो विमोक्ते महितेरेन्द्रियम् येन ब्रह्म येन क्षत्रम् येनेन्द्राग्निः प्रजापतिसोमो वरुण येन राजाः शिष्ये देवाशिवेणाः सत्यो लोकातिथिरे तेजेन्द्रियम् शुत्रादीक्षायै तपसो विमोचनीः आपो विमोक्तिर्मैतेजेन्द्रियम् अपां पुष्पमस्यौषधीनाकुमुरसः सोमस्य प्रियन्धामप्रियतो नो हविस्वाहा अपां पुष्पमस्य औषधी इन्द्रस्य प्रियतमगो हविस्वाहाविस्वाहृतेः देवेभ्यः पितृभ्यस्वाहा सौम्येभ्यः पितृर्भ्यस्वाहा पितृर्भ्यस्वाहाध्वम् सौम्यास हिमाधेध्वम् कव्यास हिमाधेध्वम् अनन्तरिता पुनर्णोतु चक्षुष्पदेशे अर्णम् वनस्पदेरिवानशीयदागोरये स च वा नृतीयाष्टके सप्तमः प्रश्नः समाप्तः